मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं ट्वेन्टी नैन् कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनम् श्रीगणेशाय नमः दशरथ उवाच कार्तिके कृष्णपक्षेया चतुर्थी सङ्गडीमता माहात्म्यं वद तस्यास्त्वं सर्वपापहरं परं वसिष्ठ उवाच अत्र ते कथयिष्यामि चेतिहासं पुरातनं महाराष्ट्रे महातेजा राजाभूत् कर्दमाभितः वेदवेदार्थतत्त्वज्ञस्वधर्मनिरदो भवत लोकान् सङ्गृह्य षष्ठांशं पालयन् पुत्रकान् यथा अपारसेनया युक्तश्चदुरङ्गप्रमोदया पूर्णकोशकुबेराभो बभौ शस्त्रास्त्रपारकः स्वबलेन नृपान् सर्वान् वशान् कृत्वा महाबलः चकार वंशगां पृथ्वीं समुद्रान्तां विशेषतः करदायितरे सर्वे राजान राजानसेवका इव सामन्ताश्च महाराज तस्याज्ञावशवर्तिनः पुण्यवान् धर्मशीलश्च दान नानादानपरायणः देवविप्रातिधिप्रेप्सु निरदो भवद यज्वाविनीतकस्तीर्थकारकः परवीरः नानागुणयुधसोऽपि मया वक्तुं न शक्यते स एव यक्ष्मणात्यन्तं पीडितः पापरूपिणा शोकाकुभव्राजा अस्तिशेषो शो बभूव नानोपाया भवद, न चोभवद शांदो महाराजस्तीर्थयावद नातीर्थ राजदी ह पीडया नैव मुक्तो भूततो दुःखितमानसः देवार्चनरदाभिप्राकृतास्तेन महात्मना तथापि रोगसंयुक्तोऽधिको राजा बभूवः तदशान्धिधरो राजवैराग्ये निदधे मनः राज्यं त्यक्त्वा प्रधानेषु शस्त्रीकस्सवनं ययौ बभ्रामवनगो भूत्वा यत्र तत्र महीपतिः ततो मङ्कणकं विप्रमदर्शद्योगिसत्तमं तद्दृष्ट्वा निपपातोर्व्यां रुरोदभृशमे वसः ततस्तं मुनिमुख्योऽसौ जगादययायुतः मङ्कणक उवाच शृणुराजन्महाभाग येन त्वं योगपीडितः अभवस्तदखं सर्वं कथयामि नृपाधमा मुख्यं नष्टं च राज्येते चतुर्थी संज्ञ्रतं तेन त्वं पापसंयुक्तो नरके गच्छसि ध्रुवं सर्वादौ तद्व्रतं कार्यं नित्यवद्राज सत्तम सर्वसिद्धिकरं पूर्णं चतुर्विधफलप्रदं तद्व्रतेन विहीनस्त्वं नानाधर्मपरायणः चतुःपदार्थहीनत्वान्निष्फलोऽसि नृपाधमा यवमुक्त्वा च महात्म्यं चतुर्थी सम्भवं मुनिः श्रावयामास तस्मै तच्छ्रुत्वा सोऽपि तमब्रवीत कर्दम उवाच धन्यं मे युगदर्शनाद व्रतस्य श्रावणा धन्यो कृतकृत्यो न दयानिधे गणेशस्य स्वरूपं वद विस्तराद सर्वदेवाधिदेवं तं भजिष्यामि निरन्तरम् मङ्गणक उवाच गणेशस्य स्वरूपं कथयितुं शक्यते न तत् तदाप्युपाधिसंयुक्तं वदामि शृणु गर्दम् पुराकं पत्रभक्षः संस्तपसे बहुकाले गदेहस्तो विद्धो मे तदा पत्र रसस्तस्मादस्रवत् किञ्चिदभ्यहो दृष्ट्वा विस्मितचित्तोऽहं नृत्यं चाकरवं तदा अहो देहाद्गतं कुत्र रुधिरमे स्वभावजं पत्रभक्षणभावेन रसस्रवदिहस्ततः तदो नृत्यस्य वेगेन कम्पितं स चराचरं मदीयतपसा युक्तं देवाः शङ्करमाययुः शङ्करः सर्वदेवैश्चागत्य मामब्रवीध्वजः किं नृत्यसि महाभाग पश्यमे कौतुकं महद इत्युक्त्वा त्रुटिकातेन कृता तत्र रसस्य भस्मरूपं कृतं भूपा भवं तेनादिविस्मितः त्यक्त्वा नृत्यं महेशानं प्रणम्यस्तुदवान् क्षणाद अन्धर्धा यत्स्वमात्मानं शङ्करः गदो भवद मया मनसि राजेन्द्रसन्धृतं शङ्करात् परं विद्यते न तथा कर्तुमन्यथा कर्तुमीश्वरः दर्शयित्वा तपोरूपमदो भस्मकृतं महद रसस्य सर्वगस्वोऽपि ब्रह्माकारः प्रदृश्यते त्यक्त्वा विष्णुं महेशस्य भजने निरधो भवं क्रमेण योगयुक्तो तपस्ततः जडादिकामया योगभूमय क्रमिदास्तदः क्रमेण सहजे संस्तो संस्थोभवं वै मोहवर्जितः यत्र तत्र महीदेश्ये भ्रान्दोकं योगधारकः सहजं ब्रह्ममोहेन हीनं दृष्टं मया तदः स्वाधीनं सहजं ब्रह्म न योग्यं शान्तिदे परे तेनाखं ब्रह्मणिभ्रान्तः सूर्यं च शरणं गतः प्रणम्य सौरमार्गेण स्तोत्रेण प्रस्तुतो मया प्रसन्नो मा वदत्तत्र वरं वरय चेप्सितं तदोहमवदं सूर्यं वद शान्तिप्रदं प्रभो सहजं मोहीनत्वात् स्वाधीनं नैव शान्तिदं तदो मामब्रवीसूर्यप्रसन्नो भक्तियन्द्रितः गणेशं भजभावेन तदा शान्तिमवाप्स्यसि असच्चक्रिश्च सत्सूर्यसमो विष्णुर्महामुने सः जशङ्करः प्रोक्तस्तेषां योगे गणेश्वरः चतुर्नां चैव संयोगे स्वानन्दः परिकीर्तितः अयोगः पञ्चभिर्हीनस्तत्र निर्मायिको बभौ संयोगे माययायुक्तो योगे मायाविवर्जितः तयोर्योगे शान्दितः स गणेशो ब्रह्मनायकः चित्तरूपामहाबुद्धिः पञ्चथा परिकीर्तिता चित्तमोहप्रदा सिद्धिस्ताभ्यां क्रीडति विघ्नपः चित्तमोहयुधं विप्रत्यक्त्वा योगेन शान्दिदं चिन्तामणिं भजस्वत्वं योगिवन्द्यो भविष्यसि यवमुक्त्वा ददौ मन्त्रं प्रभुमह्यं षडक्षरं सविधिं तं नमस्कृत्य स्वाश्रमेहं समागमं तत्र विघ्नेश्वरं भक्रिया भजं नित्यमादराद। नित्यमादराद तदस्वल्पेन शान्तिस्थोभवं योगस्य सेवया तथापि गणराजं सम्पूज्य मन्त्रपरायणः अभजं तेन सन्तुष्टः प्रत्यक्षं प्रययौ स्वयं मया सम्पूजितो भक््या स्तुतो नानाविधैस्तवैः मह्यं दत्वा दृढां भक्त्रिमन्दर्धानं चकारः तदारभ्य मादराद भजामितं गणेशानं स्वच्छन्देन महामदे एवमुक्त्वा ददौ तस्मै कर्दमाय षडक्षरं मन्त्रं विधियुधं विप्रो गणेशकृपया युधः अन्तर्धानं चकारापि महान् मङ्कणको मुनिः राजा कर्षसमायुक्तस्वगृहं प्रत्यपद्यत तत्रादौ कार्तिके मा स्यागदा तां चकारपुरस्थैश्च जनैर्हर्षयुतो नृप तदो भूबेन विख्यातं कृतं व्रतमनुत्तमं शुक्ल कृष्ण चतुर्धीजं व्रतं चक्रुर्जनाभुवि रोगहीनस राजर्षिरभजद्गणनायकं जना वन्ध्यत्वहीनाश्च भजं स्ते भावसंयुताः पुत्रे राज्यं परित्यज्य शस्त्रीकः सवनम् ययौ तत्र विघ्नेश्वरम् भक्र्या भजच्चानन्यचेतसा अन्ते स्वानन्दको ब्रह्मभूदो ब्रह्मभूतो बभूवः भूमि भूमिसंस्तास्ते ब्रह्मभूता बभूविरे एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम अन्यत्वं शृणुभावेन परं कार्तिकसम्भवं चण्डालकोऽपि पापात्मा हिंसायां तत्परो भवद जघानब्राह्मणान्यान् जन्तून् वनसमाश्रितान् परस्त्रियं वने धृष्ट्वाय भक्तां हठ संयुतः एवं नानाविधं पापं चकार दुर्मधि सदा कदाचित् कार्तिके मासि चतुर्ध्यां वनमाश्रितः कृष्णायां तत्र सर्पेण दष्टपापरायणः ततोदिभयसंयुक्तस्वगृतं प्रत्यपद्यत तत्रोपायाकृदाना स्वजनैर्विषहारकाः तथा विषबाधा च न जहौ तं सुदुर्मदीं तदश्चन्द्रोदये किञ्चित् सावधानो बभूवः तत्रान्नं भक्षयित्वा स पुनस्तद्गरलेन च व्याकुलः गतचेष्टों त्यजो भवत पञ्चम्यां समृदपापी ब्रह्मभूतो बभूवः व्रतपुण्यप्रभावेन तदद्भुतमिवा भवद एवं नानाविध राजन् व्रतपुण्यप्रभावतः बभूवीरे ब्रह्मभूदा मया वक्तुं न शक्यते एतत्ते कथितं सर्वं माहात्म्यं कार्तिके नृप सङ्गष्ट्यायस्तु पठति शृणो तीप्सितमालभेत् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते कार्तिककृष्णचतुर्थी माहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः ॐ